श्रीमद्भागवतमहापुराणं पञ्चं स्कन्ध यत्पीहवैराजाराजपुरुषो वाम् अदण्डय दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं च पापीयान्नरके मुद्रशूकरमुखे निपतते तत्रातिबलैर्मिन् पीष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयनं क्वचिन्मूर्च्छितः कस्मरमुपगतो यथैवेहादिष्टदोषा ॐ उपरुद्धाः यस्पृहवै भूतानाम् ईश्वरोपकल्पितवृद्धीनाम् अविविभक्तं परव्यथानां स्वयं पुरुषोपकल्पित वृत्ते विभक् विभक्तं परव्यो यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तद्रहासौ ते जन्तुभिः वसुमृगपक्षिसरीसेपै मशकयूका मद्गुणमक्षेकादिभिर्ये केचाभिद्रुग्धास्ते सर्वतोभिद्रुह्य माणन्तमसे विहत निद्रा निवृत्तिर्लब्धावस्थानः परिग्रामति यथा कुशरीरे जीवः यस्पीह वा असंविभज्या स्नाति यत्किञ्चनोपनतं निर्मितं पञ्चयज्ञो वायसंस्कृतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत स्वयं कृमिभिरेव भक्ष्यमाण कृमिभोजनो यावद्दं प्रदां प्रभुतादो निर्वेशमात्मानं यातयते यस्मिह वये तेजेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मण स्वं वापहरद्यन्यस्य वानापति पुरुषस्तममुद्रराजन् यमपुरुषा अस्य अयस्मयैरग्निपिण्डैः सदंशये त्वति निष्कुषन्ते यस्पीह वा अगम्यां वा पुरुषं योषिदम्भिगजते तावमुद्रं कथयां ताडयन्त चिङ्मया सुर्म्यां लोहमय्या पुरुषम् आलिङ्गयन्ति श्रियं च पुरुषरूपया सुर्म्यां यास्पीह वै सर्वाभिगमस्तं तमं मुद्रा निर्ये वर्तमानं वज्रकण्टकसार्वलीमारोप्य निष्कर्षयन्ति ये त्विह वै राजन्या राजपुरुषा वा अपां खण्डां धर्मसेतुन् भिन्दति ते सम्परेद्य वैतरण्यां निपतन्ति भिन्नमर्यादां तस्यां निरयपरिखाभूतायां नद्यां जातो गणैरीन्तस्ततो भक्ष्यमाणा आत्मनाना आत्मना न वियुज्यमानां च सुरभिरुह्यमाना स्वाघेन कर्मपाकमनुस्मरन्तो विण्मद्रापूयशोडितकेश न खासि मेरोमांसवशा वाहिन्यामुपद्रन्ते एह वयं विशलिपतयो नष्टशौचाचारनियमात्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रीत्या पूयविन्मोद्रं श्लेशमरा पूर्णार्णवेनुपतन्ति तदेवातिविभत्सितमश्नन्ति ये तु ह्य वै स्वगर्दभपतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निध्यन्ति तानपि सम्परिताल्लक्ष्यभूताञ्जमपुरुषा यिषुभिर्विध्यन्ते येतीह वेदाम्भिकादम्भयज्ञेषु पशूना विशसन्ते तानमस्मिन् लोके वयससे नरके पतितान्निरयं प्रतियो यातयित्वा विशसन्ति यस्तीह या वैसवर्णां भार्यां द्विजोरेत पायति काममोहितस्तं पापकृतमं मुद्ररेतकुल्यायाम् पाति द्वारे त सम्पादयन्ति ये द्विह ग्रामान् स्वार्थान् बा विलम्बन्ति राजानो राजभटा वातांशापि परे च यवदूता भजाश्वानसप्तशतादिविंशति स् सलभसं खादन्ति यस्पृह वा अनितं वदति साे द्रव्यविनिमये दाने वा कथञ्चित् स वैप्रेत्य नरके वीतिमध्यधशिरा निरवकाशे योजन् सतोच्छादायादं गिरिमृध्नसम्पाद्यते यन् यत्र जलमिव सलम् अस्मलपृष्टम् अभुवसां न भासुते तदवीच अतीलसो विसृजमाण शरीरो न म्रियमाण पुनरारोपितो निपतति यस्पेह वै विप्रो राजन्यो वयसो वासोमपीठं तद्गन् कलद्रं वा सुराम्रतस्थोऽपि वा पिबती त्रमागस्तस्तेषां ध्रियं नितानां उरजसी पदाक्रम्यास्ति वह्निना द्रौमाणं काष्ठनायसं